मुद्गलपुराणम् खण्डं फैव् लम्बोदरचरितम् अध्यायं ट्वेण्टिसिक्स् शमीमन्दारस्पर्शमहिमावर्णनम् श्रीगणेशाय नमः मुद्गल उवाच तदोद्धौम्यं समागम्य शौनको हर्षसंयुतः कथयामासवृत्तान्तम् सोपि संहर्षितो भवत धन्यो मे वृषघः पुत्रः सर्वसिद्धिप्रदायकः साक्षात् गणेशरूपश्च सर्वेषां वन्द्य आदराद शमी समीपगोहर्ष संयुक्तस्तत्र अर्वकः तताप तप उग्रं शमी संयोगकारणात् स एवमरणे तत्र शमी गर्भस्थिदोह्यभूद अग्निरौर्वाभिधानश्च गणपत्यो महायशाः कल्पान्ते गणनाथं स ययौ योगसमन्वितः शौनकश्च तथा धुण्डिमभज स्नेहसंयुधः मन्दारमूलजामूर्तिं कृत्वा पूजापरायणः शमी मन्दारदूर्वाभिस्तोषयामास विघ्नपं शमी मन्दारमालाभिः शुशुभे ब्राह्मणोत्तमः बाणपत्यस्वरूपेण तथा धौम्यो बभूवः भृशुण्डी तद्भवं वृत्तं श्रुत्वा हर्षसमन्वितः आगत्य स्वाश्रमे संस्थौ ननाम वृक्षसत्तमौ नित्यं पुपूज च शमीं मन्दारं भक्तिसंयुधः शमीं मन्दारदूर्वाभिपूजयामास विघ्नपं शमी मन्दारमालाभिर्भूषितो मन्दार मुनिसत्तमः शुशुभे गाणपत्येषु गणराज इवापरः एवं ये, ये ये स्थिदा दक्ष गाणपत्या विशेषदः ते सर्वे शमी पूजा संयुधा बभुः यदत्ते कथितं सर्वं संभवं। माहात्म्यं पुनरन्यत्वं शृणु पापहरं परं द्राविडे शूद्रयोनिष्ठो बभूवे पापकारकः वनं गत्वा जनान् हस्त्वा द्रव्यलोभी दुरात्मवान् एकदा वनमभ्यस्तो भवद्व्याघ्रेण दर्शितः पपादभयभीतश्च न ध्यस्तेन प्रभक्षितः तत्र वायुबलेनैव वा शमीपत्रम् समाययौ तस्य स्पर्शो भवत्तस्य दिवोगा प्रजापद तम ने यमदूता सज्मबला गाणेशास्त समे नाधमं यमदूता स्रस्कृत गाणेश प्रगृह्य वै गन्तुं समुद्यदा यावत् तावत् ते तान् प्रदुद्रुवुः प्रगृह्यैव ब्रह्मभूतं प्रचक्रिरे यमदुदा गत्वा शोकदुःखसमन्विताः ं कथया मा सुक्रोधेन परिपूरिताः या मा ऊजुः स्वामिन् शास्त्रकरा केजिद्बभूवर्भूमिमण्डले त्वदाज्ञावशगं सर्वं वर्तते कुत्र तद्गतम् साक्षा साक्षाद्धर्मराजश्च यदा वेदार्थवान् प्रभुः वर्तस्येत्तेन सर्वं वै त्वदाज्ञावशगं मदं शम्भुविष्णुमुखादेवा धर्माधारा भवन्ति वै धर्मयुक्तस्वभावेन वर्तेरन्नात्र संशयः महापापी विशालाक्षो नामशूद्रो ममारः तं गृहीतुं वयं तत्र गदापाशधराः प्रभो तत्र संयाद पुरुषाः परमाद्भुदाः शुण्डादण्डधरा सर्वे चतुर्बाहु विराजिताः अस्मां स्थेतु तिरस्कृत्य तं शूद्रं गृह्य सूर्य च गन्तुं समुद्यता निपात्यनो महावीर्या मुसलेन प्रगृह्यतं गदा जानीमो दुना सर्वे महामदे अधस्तं यत्नसंयुक्तो मदं तेषां हरस्वच च एवमुक्त्वा प्रणम्ययिनं स्थिता प्राञ्चलयो भवन् मुद्गल उवाच तेषां तद्वचनं श्रुत्वा ध्यानस्थोभून्महामतिः यमः सर्वं विदित्वादु भयं दध्रे महायशाः ध्यात्वा गजाननं देवं हृष्टरोमाच साश्रुकः हृदि प्रणम्य विघ्नेशमुवाच भयसङ्कुलः मदीयकिङ्घरैस्वामिन्नपराधकृदो महान् तं क्षमस्वदया सिन्धो प्रभो ह्यज्ञानसंयुतैः विवादो नैव शोभनः स प्राप्तो भाग्यहीन बलेन च एवं क्षमाप्य विघ्नेशं स्थितं भानुज सर्वान् जगादवचनं हितं यम उवाच मन्दारमाला शमिकाष्टजा च यस्यैव देहे भवति प्रमाणं पुष्पं तयोः पत्रयुतं च शूरात् सन्त्यज्य चरदप्रभीताः दूर्वायुधं विघ्नहरस्य गाधां संगायमानं यदि पापयुक्तं पूजादिकारं गणनायकस्य सन्त्यज्य दूरं चरदप्रभीताः गणेशहैरम्ब गजाननेदि महोदरस्वानु भवप्रकाशिन् वरिष्ठसिद्धिप्रियबुद्धिनाथ वदन्दमेवं त्यजतप्रभीताः अनेकविघ्नान्तकवप्रतुण्डस्वसञ्ज्ञवासिंश्च चतुर्भुजेदी पवीष्य देवान्तकनाशकारिन् वदन्दमेवम् त्यजदप्रभीताः महेशसूनो गजदैत्यशत्रो वरेण्यसूनो विगडत्रिनेत्र परेशधरणीधर एकदन्तवदन्तमेवं त्यजद प्रभीताः प्रमोदमोदे षडूर्मिहन्तर्गजकर्णढुण्ढे द्वन्द्वारिसिन्धौ स्थिरभावकारिन्वदन्तमेवं त्यजदप्रभीताः विनायकज्ञानविखादशत्रोपराशरस्यात्मज विष्णुपुत्र अनाधिपूज्या खुग सर्वपूज्य वदन्तमेवम् त्यजदप्रभीताः विधेर्जलम्बोदरधोम्रवर्णमयूरपालेदि मयूरवाहिन् सुराः सुरैः सेवितपादपद्मवदन्तमेवं त्यजद प्रभीताः वरिन् महाखुद्वज शूर्पकर्णशिवाजसिंहस्त अनन्दवाः दिदौ जघ्नेश्वर शशनाभे वदन्दमेवं त्यजद प्रभीदाः अणोरणीयन् महदो महीयन् रवेर्जयोगेश वरिष्ठराज निधिशमन्त्रेश च शशपुत्र वदन्दमेवं परप्रदात्तर्ह्यदितेश्च सूनो पराशरज्ञानदतारवक्त्र गुहाग्रजब्रह्मपः पार्श्वपुत्रवदन्तमेवं त्यजत सिन्धोश्च शत्रो शमीश पुष्पप्रियविघ्नहारिन् दूर्वाभरैर्चिददेवदेववदन्दमेवं त्यजद दा प्रभीताः दियप्रदातश्च शमीप्रियेदि सुसिद्धिदातश्च सुशान्तिदातः अमेय मायामिद विक्रमेदि वदन्दमेवं त्यजद दा प्रभीताः द्विधा चतुर्धिप्रिय कश्यपाज धनप्रदज्ञानप्रदप्रकाश चिन्तामणि चित्तविहारकारिन् वदन्दमेवं त्यजत यमस्य शत्रो अभिमानशत्रो विधेर्जहन्धः सूनो विदेहस्वानन्द अयोगयोग वदन्तमेवं त्यजद प्रभीताः गणस्य शत्रो कमलस्य शत्रो समस्तभावज्ञ च बालचन्द्र अनादिमध्यान्तमयप्रचारिन् वदन्दमेवं त्यजद प्रभीताः विभो जगद्रूपगुणेशभूमन् पुष्ठे पदे आखु गदे बोध कर्तश्च पादाश्च दुः संहरेदि वदन्तमेवं त्यजतप्रभीताः इदमष्टोत्तरशतं नाम्नां तत्प्रपठन्ति तृण्वन्दितेषु पुरुदभिदामा वै प्रवेशनम् भुक्तिमुक्तिप्रदम् ढुण्डेर्धनधान्यप्रवर्धनं ब्रह्मभूयकरं स्तोत्रम् जपदो नित्यमादराद यत्र कुत्र गणेशस्य चिह्नयुक्तानि वै भटाः मानि तत्र कुरुद सम्भिमा प्रवेशनम् तेन संस्थापि दाः सर्वे स्वस्वकार्येषु सेवकाः केशाद्यास्तत्र केयूयं वयं भजद तं सदा एवमुक्त्वा यमः सर्वान् किङ्करान्मौनमा या सर्वे गणेशान भजंते भाव संयुतादं शमीभव पुण्यम महात्म्यम युणो तस्य पढ़तिदम त्य ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते शमीं नाम षड्विंशतितमोऽध्यायः ओ